अथ चतुर्थकाण्डे द्वितीयः प्रश्नः प्रारम्भः यत्र छन्द आरोह पृथिवे मन विक्रमस्व निर्भक्तस्य विष्णुक्रमास्य विजस्ति हात्रेष्टभञ्छन्द आरोहान्तरिक्षमन विक्रमस्वर्भक्तस्य विष्णुवाक्रमास्यागतं छन्द आरोह धर्म विक्रम स्वलर्भक्तस्य न्दरोधि विक्रमस्व निग्रस्तयन् विष्मः वक्रन्दसज्ञस्तनयन्यो रक्षामारेहत्वे रुधस्वञ्जन् सद्यो यज्ञानो वित्ताक्षारोदीभानुलाभात्यन्त अग्नेऽप्यावर्त्यन्नभिन आवर्तस्वायुषावर्त्य सन्न्यामेतया प्रलयासनेन ग्ने अन्विरश्च कन्धे सन्धारुषः साध उपावृतः तासाम् पोषस्य पोषेण पुनर्ना नष्टमाकृधि पुनर्ना रयिमाकृधि पुनरोर्जानिवर्तस्व पुनरत्न इषा इषा पुनर्नस्वाभिश्वदः सारय्यानुवर्तस्वात्मन्वस्वधारया विश्वत्स्मिया विश्वदस्परि उदुद्धमम् वरुणपाशमस्मदवाधमम् विमध्यमग्रश्रथाय अथावयमादित्यवानागसोऽ श्याम आत्त्वारिषमङ्गलभो ध्रवस्त्यष्ठाभिचलिः विशस्वा सर्वा वाञ्छन्वस्त्यण्डाष्ट्रमधिश्रया अग्रे बृहन्मषदा मोध्वास्थान्यवान्ध्वोतिशागात् ज्ञर्पानुनार्षदास्वङ्गहा जातो विश्वासत्मान्यप्रा स्येदत्वम् मातुरस्यापस्य विश्वान्यज्ञानषा मातपसाधिशोषुतोऽन्तरस्यामो शुक्रचर्विभाहि अन्तरज्ञे रचात्ममुखा हि सुदने स्वे तस्यास्वमोहरसातपञ्जातवेदः शिवो भव शिव भो त्वा मह्यमग्नेऽथोऽसेदशिवस्त्वम् शिवाकृत्वादिशः सर्वास्वाञ्योनिमिहासदः सिषत्वसुरन्तरिक्षसद्धाला वेदिषरतिषत्तराणसत ऋषधरसरसत्यमसत्यागोजारतजारतम् रहत दिवः परिप्रथमम् जज्ञे अग्नेरस्मद्वितीयम् परिजातवेदा तृतीयमप्शनृमहाजश्रञ्जानेनमादेरग्ने त्वेधात्रयाणि विद्मादे समविवृतम् पुरुत्रा निग्मादे नाम परमम् गुहायद्वित्मादमोच्छ समज्रे त्वा नृमना अक्सन्दर्नृजक्षा ये दिवाग्नोधन्धमृतस्य यो नो महिषा हिन्वन् अक्रन्दरत्न्यस्थायन्निवजो रक्षा मादेर्य द्वेरुधः समञ्जन् विद्वाक्षराोदसी बानुलाभा भावको अरतिस्व मेधामध्येष्वप्रमृतो निधायि यत्य धूममनृषम् परिभ्रतच्छुक्रेण सोतिषाद्यामिनक्षद विश्वस्य केतुर्भवनस्य गर्भारोदसी अपृणाध्यायमानः मयापरायञ्जनायदग्न्यमयजन्तवम् च श्रीणामुदार धरुणारयीणाम् मनीषाणाम् प्रार्पणस्वामगोपाः अद्य हसो अप्सुराजाभिभाज्यक्रवृषधामिधानः यस्ते अत्यकुरवद्भद्रशा जयभोपन्देव कृतवन्तमग्ने तदन्वयप्राम्बस्याच्छाभिद्यम्नन्देव भक्न्यष्ठदम्फष्वत्न उक्तस्यमाने प्रियसो ये प्रियाग्नाभवात्युचातेन विन ददुर्जनत्रये ैवार्याणि प्रया सह द्रविणमिच्छमान प्रजङ्गोमञ्जमुषिजो विभवो जानो रत्मगुर्व्याव्यद्यो धर्मषमायश्रियेन जानः अग्निरमृतोभरद्वयाभिर्यनेऽनञ्जौरजुरेता अन्नपदेऽन्नस्य नादेशमेवस्य सुष्मिणः प्रप्रदातानन्दािषोर्जन्माधेयत्रिपदे चतुष्पदे उदत्ता विश्वे देवाग्नेभरन्तु चित्तिभिः समोभवशिवतमःप्रदीपो विभावसे ज्योतिष्मार या हि शिवेऽभिरक्षभिश्वम् प्रहरग्नभिर्भासन्माहि गोजेस्तमवा प्रदाज्ञन्दोस्य लक्षेबोधयदातिथिम् आस्मिन् ह्याजहोतना प्रायमग्निर्भरदस्य षण्तनाशरस्वधेदाय दैव्यानः आपो देवेः प्रतिगृह्णे तपस्मेतस्यो नेतृणद्धगंसुरभाव लोके अस्मैलयः सुपत्न्ये मादेव पुत्रम् बिभृतास्वेनम् अस्वग्ने सिष्टवसौषधीरनुरुध्यसे गर्भे सञ्जायसे पुनः गर्भो अस्योनाम् गर्भोस्वदीनाम् गर्भो विश्वस्य भोजस्यामसिमपश्च पृथिवीमग्ने समुदृज्य मातृभिस्मञ्जोगिष्मान् पुनरासरः पुनरासद्यसदमपश्च पृथिवीमग्ने शेषे मातरयथोऽभस्थेन्दरस्यागौ शिवदमः पुनरोजानिवर्तस्व पुनरग्न इशान्नपाहि विश्वदः त्वस्वाज्ञे विन्वस्वधारया विश्वस्य विश्वदस्परीस्मादित्यार्त्रा वचनस्वन्दताम्ब्रह्माणो वचने सैन्ये हृदयेन सद्यः सन्धीयमानस्य कामाः बोधानो अस्य वदसो यविष्ठमोहिष्ठस्य प्रभृतस्य स्वधावः त्व अनुत्व ग्रणादिवन्दारुस्ते तनुवम् वन्देऽज्ञे रोति चोरिर्मखवापसुदावा वसुमति योऽध्यस्मद्वेषां तस्थपुराणाय जनोतामावसानम् पृथिव्यामम् अग्नेऽर्थस्मास्ये पुरेषामधरणम् मयि ते कामधरणम् भूयात् संयामप्रियास्तलवः सन् प्रिया हृदयादिवः आत्मा वोसंप्रियः संप्रियास्तनुभो स्वयमोसान् स्वमिन्द्रस्वदन्दधे जठरे वावसानः सहस्रियम्बायमत्यङ्गूयजादवेदः अग्ने दिवो देवागमो ेयत्ते दिविवच्च पृथिव्यान्यदोषेष्वप् स्वाय यत्र येनान्तरिक्षमुर्वा तदन्धश्च भानुर्नवो नितक्षाः पुरेष्यासो अग्नयः प्रावणेभिः सजोषधव्यमाहुजमनमेवायुषोमहे इडामग्ने पृथगं सगोसनिङ्गो श्वस्यत्यमगो हवमानाय साध ो नस्मेन्द्रयो निरक्तयो जातोन् नारोहार्थया ऋतया देवतयाङ्गिरस्वध्रुवासीदपरिचितश्रितया देवतयाङ्गिरस्वध्रुवासीतलोकम् बृहशिकलम् बृणातोऽसीदसिमात्म्राग्ने बृहस्पतिरश्मिनयोशेष श्रेणन्तिपृष्णयः जन्मन् देवानाम् निज स्ृष्णारो दिवः समिद्रो सङ्कल्पेयो जिष्णो सुमनस्यमानो विषमोद्यमभिसम्बधानो सम्बामना समुचित्तान्याकलम् अग्ने पुरेष्याधिपाभवाः विषमोद्यमानाय धेहि पुरेष्यस्त्वमग्नेरहिमान्मुष्टिमागोमसि शिवाः कृत्वादिशः सर्वास्वाञ्जोनिकौवेदसौ शिवोपदमत्याः महदेव पुत्रम् पृथिवीपुरीश्यमज्ञकृष्पभारुकादेवैर्लिसंविधानप्रजापरविश्वकर्माभिमुञ्चतस्य पारेर्जसः शुक्रञ्जो दरजायत अन्नः परिषदद्विषाैश्वानरस्वाहास्तुते निरृते विश्वरूपे यस्मयम् विशुताबन्धमेतम् यमेन त्वम् यम्या संविधानात्कमन्नागमधिराह एवम् यत्ते देवे निरृतिराबन्धदामग्रीवास्वविजत्यम् इदम् देतद्विश्याम्या इशोनमध्यानदा जीवप्रितुमध्यप्रमुक्तः यस्यास्ते अस्या क्रोर आसञ्जोम् येषाम् ब्रन्धानामवदजनाय भो निरलित्वाजनाविर्निरृदैलित्वाहम्बरिवेदविश्वदः असन्नमैरमानमिच्छस्तेरस्येत्यान्तस्करस्यान्वेषि अन्यमस्मदिच्छसाद इत्या नमो देविनिरर्देभ्यमस्तु देवी महन्निरृतिम्बन्दमानप्यदेव पुत्रन्तस एव ेषजीभिः देवैव सविता सत्यधर्मेन्द्रौ समरेपथीना संवर्त्रादधातननिराहापाण्डोदना शिजामः अवटमुद्रणम् वयम् विश्वाहादस्तमक्षितम् निष्कृताहावत्नकौतुशेदम् उद्रणकोजयरक्षितम् ीरायुञ्जन्ति पृथक् हीलादेवेषु सन्मयातनाजःसृष्टिः सभरासम्मानेदीय इत्सृञ्ज्ञापक्वमायत लाङ्गीरवकं सुसेवकंसु मदित्सरो उदिकृषलिकामविम् प्रभर्व्यम् च बीपरी हस्तावक्रथवाहनम् शनण्णः कालाभितुदन्तु भोविको शनम् गीराशायन्तुबाहार शनम् वर्जण्यामधुनापयोभिश्वनाशीराशनमस्मासु दत्तम् कामङ्गामधुघे दुक्ष्ममित्राय वरुणाय च इन्द्रायाग्ने कोष्णवौषधेभ्यः प्रजाभ्यः घृतेन सीतामधुना समग्धा विश्वे देवैरनुमतामृद्भिः स्वदेपयसा पिन्वमानास्मांसि देवयसाभ्याववृत्स्व ौषधयो देवेभ्यः श्रीकम् पुरा वृन्दामि बभ्रोणामागौ शतम् धामानि सत्त्वजा शतम्बो अम्बधामानि सहस्रमुतवोरुहः अथा शर्क्रत्व यूयनिमम्मे अगतम् कृता पुष्पावदेः पृथोपदेः फलिनेर्फलाहुता अश्वायव सचित्फलैर्वेरुधः पारयिष्णवः ओषधेरिति मातरस्तद्वो देवीरुब्रुवेतेरि दरपश्चातयमानाः अश्वत्थे वषतनम् वर्णे वा वसतिः कृता वाजैत्यासधयत्सर्वधपोरुषम् यदहम् वाजयन्निमावोषधीरहस्तः दधे आत्मा युक्ष्मस्य नश्यति पुराजे वृभा यथा यदोषधयः सङ्गच्छन्ते राजानः समिताविव निपरः समुच्यते विषक्रक्षाहामेव जातनः निष्कृतर्नाम वा माताथा यो यकस्थसङ्कृतिः णे स्त न यदा मयतिष्कृता अन्यावो अन्यामवत् अन्यान्यस्या उपावताः सर्वा ओषधयः संविधाना इदम् मे प्रावता वचः उत्सष्मा ओषधे नागो गोष्ठादिवेदतेषा पदविश्वापरिष्ठास्तेनैव व्रजमक्रमः ओषधयः प्राचुच्छिञ्चदनुवागो नवः रस्वरात्मान्याः अपि विशः परः परः तास्य यक्ष्मम् विवादन्दामुद्रा मध्यमशेरिव साकम् यक्ष्मप्रपदश्येन किरीणा साकम्वादस्य साकन्नस्य निहाकया अश्वावलीमोद्यम् देवदोदसम् आवित्स्यसर्वा औषधे रस्मारिष्टदादे साः फलिनेर्याः फलाः पुष्पायाश्च स्तानो मञ्जन्मोहसः आषधे स्वामराज्ञे प्रविष्टा पृथिवीवनो आशान्द्वश्चित्ता प्रणो देवादवेदन्ति वा ओषधयपरि यन् देववष्णवाभयेन सरिष्यादिपोरुषः याश्चेदमुपधन्वन्त्यश्च दोरम् परागताः यः सङ्गच्छताः सर्वा अस्मै सन्दत्तभेषजम् मा वार्यत्खनिता यस्मै चाहम् खनामिव विवच्यनुष्पदस्माकम् सर्वमस्मनातरम् ओषधेः संवदन्ते सोमेरसह राज्ञाः यस्मैकरोदिब्राह्मणस्तगोराजम् वारयामसि आमोऽधिपुंसेज्यनितायः पृथिव्यायो वाधिवकं सत्यधर्मा जान यश्चापश्चन्द्रावृहतेर्त्यजानकस्मै देवाय हविषाभिधेवा अभ्यावर्तस्व पृथिवी यज्ञेन पयसा सह अपान्दे अग्नेशतावसर्पतो अग्नेयत्ते शप्रञ्यच्छन्द्रञ यत्पोत यद्धिज्ञयम् तद्देवेभ्यो भरामसि विषमोऽमहमित आदधस्य साम्ना अमृतस्य योनेः वा अग्नेताशो वयोमहि प्राजम् यच्चयामि भावस बृहद्भानशवसवाजमुख्यम् ददासि धातुषेकवे विरज्यन्नग्ने प्रथयस्व जन्तभिरस्मेरायो अमर्त्य रायो वपुष विराजसिपुरक्षिसानसि गौरयिम् कोर्जानपाज्यातवेदस्वशस्तिभिर्मन्दस्वधीतिभिर्भिदः ते हिष स्तन्दसुद्भोरिरेदश्चित्रोदय वामजाताः पावकवर्त्याः शुक्रवर्त्या अनोनवर्त्या उदैर्षिभानुना पुत्र पितरा विचरन्न पावशिभे मृणक्षिरोदसी तदावानम् महिषम् विश्वजर्षण्यौ सुमनायदधिरे पुरोजनाः श्रुत्वर्णकौ सप्रसस्तमम् वा विराजव्यम् मानुषा युगा विश्वमध्वरस्य प्रचयतसङ्क्षयन्तको राधसे महे आदिम्भृगो नाशिजङ्गविक्रतम् रुक्षिता नजितश्रयध्वया देवतया गरस्वच्छवा आप्यायश्वसमेतते दे विश्वदस्वमृष्णीयम् भवादस्य संयते सन्देहयागोसि समयन्तवाजाभिमादिशाः आप्यायमानो अमृताय स्वामधिविश्वाकुषस्युत्तमानधिष्वा अभ्यस्ताद्विश्वापराधेस्तदग्निराहत स्वाहा बृहस्पतिमहामाधात् सुस्य लोके यदा क्रन्थः प्रथमम् जायमानमद्यम् समुद्रादवा ब्रीषात् ेन वक्षणस्य बाहोपस्तुतञ्जलिमदत्ते अर्वन् अपामृष्ठमशया समुद्रमभिधप्यन्वमानम् वर्धमानम् महाचमुष्करम् दिवमात्रया मरिणा प्रथस्व ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषमदस्विरुजोभेन आवह समुद्यया उपमानस्य विष्ठा सदश्रयो निमसदश्चरण्यगर्भसमर्तलाग्रे भूतस्य जादप्रतिरकः आसीत् सदाधारपृथेऽ्यामुदेमाङ्गस्मै देवायः विशाविधेम नप्सश्च स्कन्दपृथिमनद्यामिमञ्जयो निमनयश्च पूर्वः मनुसञ्जरन्दःसञ्जुहाम्यसत्तः नमास्तु सर्पेभ्य एके च पृथिवीमनो ये अन्तरिक्षे ये दिविरेभ्यः सर्पेभ्यो नमः ये दोरोजने दिवो ये वा सूर्यस्य रश्मिषो येषामप्सुसुः कृदन्देभ्यः सर्पेऽभ्यो नमः या इषवा या दुधानान्ये वा वनस्पतिगोरनुवा वटे सुशेलदेतेभ्यः सर्पेभ्यो नमः द्रुवासि धरुणा प्रजापृतिस्वादादय पृथिव्या पृष्ठेस्वती पृथिवेन्द्रियस्मै प्राणाय पानाय व्यानाय दानाय प्रतिष्ठायै चरित्रायाग्निस्वाभिपातुमस्या स्वस्यान्तमेन तया देवतया े प्रथमसहस्रेण शतेन च या शतेन प्रथम्रेण विलोहसि तस्यास्ते देवीष्टके विधेमहमिषामयम् अषाढासि सहमानासहस्रीसहस्रहस्रफलना सहस्रपृदन्य सहस्रवीर्यासिसामाजन्मा मधुवातारतायते मधुक्षरन्ति ेर्नः सन्तोषधीः मुधरात्तमतोषधिमधमत्पार्थ्यगोरयः मधुजौरस्वनः पिता मधुरान्धेतावो भवन्तुः महेद्यौ पृथिवेतन इम यजन्विक्षता विवृतान्नोभिः तत्मा परमम् बलगोसदा पश्यन्ति सोरयः दिवे वदक्षरातम् छलासि पृथिरितः स्वबलम् जतः स्यूता देवेऽभिर यास्तेरग्ने सूर्यैर्जवद्यतादिवमातन्मन्दिरश्विभिः ताभिः सर्वाभिरुचेजनायनस्पृतिः यावो देवाः सूर्यैरुजोगोश्वसर्वाभिरुजन्मा दत्त बृहस्पतेरधारेत् सम्राट् ज्योतिरधारेत्स्वराट्योतिरधारेत अन्येष्वाहेदवाश्वासोदेव साधवाः हन्दासवः इक्ष्वाहिदेवहोतमागोमश्वागो अग्ने स्कन्दपृथिवीमत्याहोत्रा अभोदिकम् विश्वस्य भुवनस्य वाजिनवग्नैर्वैश्वानस्य चोतिषा अजयत्वा अजयत्वा मनसा पूयमाना मृतस्य धारा अभिरागीमिरण्येव वेदस्वामित्यामधृत्कुलायै भजन्ना श्रीमधुदेवता सदान्धारा आदित्यन्दर्थम् वैदासमि सहस्रस्य प्रतिमाम् विश्वरूपम् हरिवृद्धिहरसावृक्षस्तीयमानः वयिमारण्यमर्यतेनस्तनवो निषेध आदस्य ध्राजम् वरुणस्य नाभिमश्वज्ञानकौ शरीरस्य मध्ये ीडे पूर्वजिद्वाम् विराजम् गोशर्धारमुक्तम् यच्छमानम् भवनस्य मध्ये मृकन्दः नामतिरञ्जनाया ज्ञेमाहिगुंसेः परमे व्योमण् कपवयमारण्यमुदशामितेन चिन्वानश्च नवो निषीदा परो तिलम्बष्टवरुणस्य नाभिमविञ्जज्ञानागौरजसत्परस्माद् श्रीगुंसा श्रीमधुरस्य मायामज्ञे माहि गुंसेः परमे व्योमन् मामोर्नायम् वरुणस्य मायान् बलिम्बशोनान् जानाम् प्रथमम् चरित्रे परमे व्यवन्वरण्यमजेतिशामितेन जन्मानस्तनो निषीदग्जातश्रोजा पृथिव्यावतादिवस्परि येन प्रजाविश्वकर्मा व्यापरिजेवृणक्तु अजाग्यज्ञेरजनिष्ठकर्मा सा वा पश्यनितारमग्रे हमायन्नपमेध्यासया देवादेवतामग्रायन्न शरणमनुजेशामि ते चन्दरस्तनो निषीद इन्द्राग्ने परिवाजेषु भूषतप्रवीर्यम् इन्द्रायो अग्नेसहवेदवर्यात्तावधर्यभो सहस्रमासदावाजयन्द्रा स गोपातमौजनः यज्ञेर्वा यज्ञवाहो विप्रस्य वामदीनाम् मरुदर्शनताहवम् श्रीरेकम् बाणभिः संयीक्षरे ते रश्मिभिस्तर्मभिः सुखादयः ते वा शीमन्तयुष्मिनाभीरवावित्रे प्रियस्य मारदस्य धाम्नः अवदेशेणवदुत्तमम् कया नश्चित्राभूदौति सदावृतः सखा कया श्रेष्ठया वृता कोङ्गदस्य शिमीवता भाविना ग्रहृणायोम् भृत्यामृतसीवात् अग्नेया देवानाघोषन्ना वाजे नुरुध्यसेभय सञ्जायसे पुनः वृषासा मध्यमागमनसे वृषादेव वृषावृतः वृषा कर्माणि दधिषे इममेवयामि त्वन्ना इति चतुर्थकाण्डे द्वितीयः पश्यः